श्रीमद्भागवत् महापुराणं दशमस्कन्धम् अथ द्वयसीतितमोऽध्यायः भगवान् से गोप गोपियों की भेट शेषोकुवाच अथैकदा द्वारभत्यां वसतो रामकृष्णयोः सुमहानासे कल्पक्षये यथा संज्ञा त्वामनुजा राजन् पुरस्तादेव सर्वतः समन्तपञ्चकं क्षेत्रं ययुश्रेयो विधिष्ठया निक्षत्रियामहिं कुर्वन् रामशस्त्रवितां वरः नृपाणां मृधिरोघेण यत्र चक्रे महाषधान् ईजे भगवान् रामो यत्रास्पृष्टोऽपि कर्मणा लोकस्य ग्राह्यन्येषो यथा न्योघापनुत्तये महत्यां तीर्थयात्रायां तत्रागन्भारती प्रजाः विष्णयश्च तथा कुर् क्रूर वसुदेवाहुकादयः ययुर्भ्रारतच्छेत्रं समघं छपि विष्णवः गदप्रद्युम्न साम् वाद्यासुचन्द्रशुकसारणैः आस्ते निरुद्धो रक्षायां एतैर्देवधीष्णां द्याभैहयैश्च तर्लप्लवैर् गजैर्णद्भिर्भ्रामैर्णभिर्विद्याधरज्जुभिर्दरोचन्तमहातेजापथि काञ्चनमालिनः दिव्यसवस्रसुन्नाः कलत्रैकेचरा इव तत्र तत्रस्नात्वा महाभागा उपोष्य सुसमाहिता ब्राह्मणेभ्यो ददुर्धे दुर्वासहस्रं गुक्ममालिरे रामहृदेषु विधिवत् पुनराप्लुद्य विष्णयः ददुः स्वप्तं द्विजाग्रेभ्य कृष्णो नो भक्तिरस्तुति तयं च तनुज्ञाता विष्णय कृष्णदेवताः <laughs> भुक्तोपविवशु कामं सिंहच्छायां कृपाङ्क्षिषु तत्रागतास्तेदशोऽसु हि सम्बन्धिनो नृपान् मत्स्योऽस्विदं करौशल्यविदर्भकृसञ्जयान् काम्बोजकैकेयान् मद्रान् कुन्तीनानर्तकेरलान् अन्यास्त्यैवात्मपक्षीयान् पराश्च शस्वो नृपा नन्दादीन् श्रेतो गोपान् गोपीश्चोत्करं कण्ठिता स्थिरम् अन्यो न सन्दर्शनहर्षरं हता प्रोत्फुल्लिन्दक्त्र सरोरुहर्षयः आशिश्च गाढं नैनै स्रवज्जलाशिष्य प्रचोरुद्धगिरो ययुर्मुदं सनैस्तन्तनान् कुङ्कुमपङ्करोषितान् निहत्यतोर्भिः प्रणयाशु लोचनाः ततोऽभिवाद्यते वृद्धान् यविष्टैरभिवादिताः स्वागतं कुसलं पृष्ट्वा चक्रो कृष्णकथामिथ पृथा भ्रातीन् स्वीक्ष्य तत्पुत्रान् पितरावपि भ्रातृपत्नी मुकुन्दं च जहौ शङ्कथयाशिषः कुन्त्युवाच आर्यभ्रातरहुं मन्ये आत्मानम् अकृताशिषम् यद्वा आपस्तु मद्वार्ता नानुस्मरथ सत्तमाः सुहृतो ज्ञातय पुत्रा भ्रातरपितरावपि नानुस्मरन्ति स्वजनं यस्य दैवमदक्षिणम् वसुदेव वाच अम्ब मा माम् मास्मानुसीयेथा दैवक्रीडनकाण्डरान् ईशस्य हि वशे लोक कुरते कार्यते थवा कन्थप्रतापिता सर्वे वयं जाता दिशं दिशम् एतर्ह्येव पुनस्थानं दैवीनासादिता स्वीशुकुवाच वसुदेवोऽग्रसेनाद्यै यदुभिस्तेर्चिता नृपाः आसन्नच्युतसन्दर्शपरमानन्दनिमृताः भीष्मो द्रोडोऽम्बिका पुत्रो गान्धारीशचुता यथां तथां सदारा पाण्डवा कुन्ते सिञ्जयो विदुरकृपः कुन्ती भोजों विराटश्च पुरजद्रुपदशल्यो धृष्टकेतु सकाशिरान् दमघोषो विशालाक्षो मैथिलो मद्रकेकयौ युधामन्यो सुदर् सुशर्मा च राजानो ये च राजेन्द्रयुधिष्ठिरम् अनुव्रताः श्रीनिकेतं वपुषो रे